ऋग्वेदमण्डलं नैन् 9.65 सिक्स्टि फैव् किन्वन्ति सो रमुस्रयस्वसारो जामयस्पतिं महामिन्दुं महीयुवः पवमानरुचारुचा देवो देवेभ्यस्परी विश्वा वशून्याविश आ पवमानसुष्टुदिं वृष्टिं देवेभ्यो दुवः इषे पवस्व संयदम् वृषाह्यसि भानुनाद्युमन्तन्त्वा हवामहे पवमानस्वाध्याः आपवस्व मन्दमानस्वायुध इहोऽस्विन्दवागखि यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः दृणासधस्तमश्नुषे प्रसोमायव्यश्ववत्पवमानाय गायद महे सहस्रचक्षसे यस्य वर्णं मधुश्च्युदं हरिं हिन्वन्द्यद्रीभिः इन्दुमिन्द्राय पीतये तस्य देवाजिनो वयं विश्वा धनानि जिग्युष्वः सखित्वमावृणीमहे वृषापवस्वधारय मरुत्वते च मत्सरः विश्वा दधान ओजसा तन्त्वा धर्तारमोन्यो ओ, ओ पवमानस्वदृशं हिन्वे वाजेषु वाजिनं अयाचित्तो विपानया हरिः पवस्व धारया युजं वाजेषु चोदया आन इन्दो महीमिषं पवस्व विश्वदर्शदः अस्मभ्यं सोमगादुविद आकलशा कलशा अनुषतेन्दो धाराभिरोजस येन्द्रस्य पीदये विश यस्य ते मद्यं रसन्तिव्रन् दुहन्त्यद्रिभिः सपवस्वाभिमादिहा राजा मे गाभिरीयदे पवमानो मनावधि अन्तरिक्षेण आन इन्दो शदग्विनङ्वां पोषं वहा भगति मोदये आनः सोम सहो जुवो रूपन् वर्चसे भर सुस्वनो देववीतये अर्ष सोमद्युमत्तमोभिद्रोणानि रोरुवद सीदञ्च्ये नो न योनिमा अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः सोमो अरिषदि पिष्णवे इषन्तोकाय नो दध दस्मभ्यं सोमविश्वदः आपवस्व सहसृणम् ये सोमासः परावदिये अर्वावती सुन्विरे ये वा यार्जी य आर्जिकेषु कृत्वसु ये मध्ये पस्त्यानां ये वा जनेषु पञ्चसु तेनो वृष्टिं दिवस्परिपवन्तामा सुवीर्यं सुवाना देवास इन्दवः पवते हर्यदो हरिर्गृणानो जमदग्निना हिन्वानो गोरधित्वचि प्रशुक्रासो वयो जुवो हिन्वानासो न सप् यः श्रीना अप्सु तन्द्वा सुदेष्वा भुवो हिन्वीरे देवतातये सपवस्वनया रुचा आदे दक्षं मयोभुवं वह्नि मद्या वृणीमहे पान्धमा पुरुस्पृहम् आमन्द्रमा वरेण्यमाविप्रममानीषिणं पान्दमा पुरुस्पृहम् आरयि मा सूचेतु नमा सुक्रदो तनुष्व पान्दमा पुरुस्पृहम् ऋग्वेदमण्डलम् 9.66 पवस्व सिक्स्टि सिक्स् पवस्वविश्वचर्षणेभि विश्वानि काव्या सखा सखिभ्य इड्यः ताभ्यां विश्वस्य राजसि ये पवमानधामानि प्रतीची सोमतस्ततः परिधामानि यानि सोमासि विश्वतः पवमान ऋधुभि कवे पवस्व जनयन्निशोऽभि वार्या सखा सखिभ्य ऊतये तव शुक्रासो अर्चयो दिवस्पृष्ठे वितन्वते पवित्रं सोम धामग्भिः तवे मे सप्त सिन्धवः सोम सिस्रदे तुभ्यन् धावन्ति धेनवः प्रसोम याहि सुत इन्द्राय मत्सरः दधानो अक्षिधिश्रवः समत्वा दिभिरस्वरन् इन्वति सप्त जामयः विप्रमाजा विवस्वतः मृजन्ति त्वा समग्रुवे जीरावदिष्णि रेभो यदज्यसेवने पवमानस्यदेकवे जिन्सर्गा असृक्षदा अर्वन्तो नश्रवस्यवः अच्छाकोशं मधुश्च्युदमसृघ्रं वारे अव्यये अवा वसन्तधीदयः अच्छा समुद्रमिन्दवोस्तं गावो न धेनवः अग्मन्नृतस्य आपो अरिषन्दि सिन्धवः यद्गोभिर्वासयिष्यसे अस्य दे सख्ये वय मियक्षन्तस्त्वतायः इन्दो सखित्वमुश्मसि आपवस्व गविष्ठये महे सोमनृचक्षसे येन्द्रस्य जठरे विश महाँ असि सोमज्येष्ठ उग्राणामिन्दजिष्ठः युध्वासं चश्वज्जिगेध य उग्रेभ्यश्चिदोजीयाच्छूरेभ्यश्चिच्छुरतरः भूरिदाभ्यश्चिन्मं हीयान त्वं सोमसुरयेषकस्य सदातनूनां वृणीमहे सख्याय वृणीमहे युज्याय अग्न आयोंषि पवस आ सुवोर्जमिषञ्चनः आरे बाधस्व बाधस्वदुच्छुना अग्निर् ऋषि पवमानः पाञ्चजन्यः पुरोहितः तमी महे महागयम् अग्ने पवस्वस्वपा स्वपा अस्मे वर्चस्सुवीर्यं दधद्रयिं मयि पोषं पवमानो अधिश्रुधोऽभ्यर्षदि सुष्टुधिम् शूरो न विश्वदर्शदः समर्मृजनयुभि प्रयस्वान्प्रयसेहितः इन्तुरत्यो विचक्षणः पवमान हृदं बृहच्छुक्रं ज्योतिरजि जनद कृष्णा तमांसि जङ्खनत् पवमानस्य जङ्घ्नदो हरेश्चन्द्र असृक्षद जिरा अजिरशोचिषः पवमानो त्रधितमशुभ्रेभिशुभ्रशस्तमः हरिश्चन्द्रो मरुद्गणः पवमानो व्यश्नवद्रश्मिभिर्वाजसदमः धस्तोत्रे सुवीर्यं प्रसोवान इन्दुरक्षाः पवित्रमत्यव्ययम् पुनान इन्दुरिन्द्रमा येशसोमो धि त्वजिगवाङ्कीळत्यद्रिभिः इन्द्रं मदाय जोहुवत यस्या देद्युं न वत्पयः पवमानाभृतं दिवः मृळजीवसे ऋग्वेदमण्डलं नैन् त्वं सोमासि धारयोर्मन्द्र ओजिष्ठो अध्वरे पवस्व मंहयद्रयिः त्वं सुदो नृमादनो दधन्वान्मत्सरिन्दमः इन्द्राय सूरिरन्धस त्वं सुश्वानो अद्रिभिरभ्यर्ष कनिक्रदद्युमन्दं शुष्मामुत्तमम् इन्दुर्हिन्वानो अर्षदि तिरो वार्याण्यव्यया हरिर्वाजमजिक्रदद मरुषसि विश्रवांसि विसौभग विभाजान् सोम गोमादः आन इंदो शदग्विनं रयिं गोमन्दमश्विनं भरा सोम सहस्रृणम् पवमानास इन्दवस्थिरः पवित्रमाशवः इन्द्रयामेभिराशद ककुह सौम्यो रस इन्दुरिन्द्राय पूर्व्यः आयुः पावद आयवे हिन्वन्दि चोरमुश्रयः पवमानं मधुश्च्युतम् अभि समस्वरन्न अवितानो अजाश्वः पुरुषा यामनि यामनि आ भक्षत्कन्या सु नः कृदन्नपवदे मधु आ भक्षत्कन्या सुनः अयन्त आ कृणे सुदो कृदन्नपवदे शुचि आ भक्षत्कन्या सुनः पाचो जन्धुकवीनां देश रन धि आ कलशेशुधविश्येनो वर्म विगाद्रोण कनिक्रदप्रसोमे रसोसर्जिकलशे सुनो न तक अर्षति पवस्व सोममन्तयन्निन्द्राय मधुमत्तमः असृग्रन्थेववीतये वाजयन्तो रथा इव ते सुतासो मदिन्दमा शुक्रा वायुमसृक्षद ग्राणातु अभिष्टुदः पवित्रं सोमगच्छसि दधस्तोत्रे सुवीर्यं तुन्नो तु नो अभिष्टुदः पवित्रमधिगाहदे रक्षोहा वारमव्ययम् यदन्दि यच्च दूरके भयं विन्ददिमामिह पवमान विदजहि पवमानसो अद्य नः पवित्रेण विचर्षणिः यः पोता स पुनातु नः यत्ते पवित्र मचिष्यग्ने विदतमन्तरा ब्रह्मतेन पुनीहिनः यत्ते पवित्र मर्चिवदग्ने तेन पुनीहिनः ब्रह्मस वैपुनीहिनः उभाभ्यान्देवसविधः पवित्रेण सवेन च मां पुनिहि निहि त्रिभिष्टन्देव सविदर्वर्षिष्ठाय सोमधामाभिः अग्ने दक्षायै पुनिहिनः पुनन्तु मां देव जनाः पुनन्तु वसवो धिया विश्वे देवा पुनिदमा जादवेदः पुनिहिमा प्रप्यायस्व प्रश्यन्दस्व सोम विश्वेभिरंशुभिः देवेभ्य उत्तमं हविः उपप्रियं पनीतनयुवान माहुती वृद्धं अगन्म बिभ्रतो नमाहा अलायस्य परशुर्न नाशतमापवस्व देवसोम आकुञ्चिदेवदेवसोम यः पावमाने रद्येत्यर्षिभिः संभृदं रसं सर्वं स पुदमश्नादिष्वदिदं मादरिष्वन पावमानीर्यो अध्येत्यर्षिभिः सम्भृदं रसं तस्मै सरस्वती दुहे क्षीरं सर्पेर्मधुदकम् ॐ शान्तिशान्तिशान्तिः ऋग्वेदपवमानसूक्तं फलश्रुति पावमाने स्वस् ्ययनी सुदुखाहि कृदश्च्युतः ऋषिभिः सम्भृतो रसो ब्राह्मणेष्व मृदं हितम् पावमानिर्दिशन्तु न इमल्लोकमधो अमुं का मान् समर्धयन्तु समाहिताः येन देवाः पवित्रेणात्मानं पुनदे सदा तेन सहस्रधारेण पावमान्यः राजापत्यं पवित्रं सदोद्यामं हिरण्मयं तेन ब्रह्मविदो वयम् पुदं ब्रह्म पुनीमहे इन्द्रः पुनीति सह मा पुनादु सोमस्वस्त्या वरुणः यमो राजा प्रमृणाभिः पुनादो मा जादवेदा मोर्जयन्त्या पुनातु ऋषयस्तुतपस्ते पुः सर्वे स्वर्ग जिगीषवः तपःसस्त असौ ब्रियन्तु पावमानिरुचो ब्रवीद यन्मे गर्भे वसदः पापमुग्रह्यज्जाय मानस्य ज च यच्चापि च वर्धतो मे तत्पावमानीभिरहं पूनामि मादापित्रोर्यन्नकृदं वजो मे यस्थावरञ्जङ्गमा बभूव विश्वस्य तत्प्रकृषिदं वचो मे तत्पावमानीभिरहं पूनामि गोघ्नातस्करत्वास्त्री वाधाद्यच्च किल्बिषं पापकञ्च चरणेभ्यस्तत्पावमानीभिरहं पूनामि ब्रह्मवधात्सुरापानात् स्वर्णस्ते यद्वृषलीगमनमैधुन सङ्गमाद गुरोर्धाराधिगमना च तत्पावमानीभिरहं पुनामि बालग्नान् मातृ पीतृवद्धाद् भूमि तस्करात् सर्ववर्णगमनमैथुन सङ्गमाद पापेभ्यश्च सद्यप्रहरदि सद्य प्रहरति सर्वदुष्कृधन् पूनामि क्रया विक्रयाद्योनिदोषाद्भक्षात् भोज्यात् प्रतिग्राहद हंस भोजना नृशंसं तत्पावमानीभिरहं पूनामि दुर्यष्ठन् दुरधेदं पापयच्चाज्ञानदोकृदम् अयाजिताश्च सय्याज्यस्तत्पावमानीभिरहं पूनामि अमन्त्रमन्नै यत्किञ्चिद्धूयते च उदाशने पापं तत्पावमानीभिरहं पूनामि क्रया विक्रयाद्योनि दोषाद्भक्षाद् भोज्यात् प्रतिग्रहाद हंसभोजनाच्चापि नृशंसं तत्पावमानिभिरहं बुनामि अयाजिताश्च सह्याज्यास्तत्पावमानीभिरहं पूनामि अमन्त्रमन्नै यत्किञ्चिद्धूयते च उदाशने संवत्सरकृदं पापं तत्पावमानीभिरहं पूनामि ऋतस्य यो न यो मृतस्य धाम विश्वादेवेभ्यः पुण्यगन्धाः स्थान आपप्रवहन्धुपापं शुद्ध गच्छामि सुकृतामुलोकं तत्पावमानीभिरहं पूनामि पावमानि स्वस्त्यनीर्याभिर्गच्छति नान्दनं पुण्यांश्च भक्षान् भक्षयन्त्यमृदत्वं च गच्छति पवमानी पितृन् देवान् ध्यायेद्यश्च सरस्वतीं पितृंस्तस्योपवर्ते तल् क्षीरम् सर्पेर्मधूतकम् पावमानं परं ब्रह्मशुक्रञ्ज्योद्दिस्सनातनं ऋषींस्तस्योपतिष्ठेल् क्षीरं सर्प्यैर्मधूदकम् पावमानं पारं ब्रह्म ये पठन्ति सप्त जन्म भवेद्विप्रो धनाढ्यो वेदपारगः दशोत्तराण्यऋचांश्चैव पवमानिशतानि षट् शता। ये दज्जुह्वपेन्मन्त्रं कोरमृत्युभयं हरेत् यदत्पुण्यं पापहरं रोगमृत्युभयावहं पठतां शृण्वतांश्चैव ददाति परमां गतिं भद्रन्नो अपि वादयमनाः शांता पृथिवी शिवमन्तरिक्षन्द्यौ नो देव्यभयन्नो अस्तु शिवा दिश प्रदिश उद्दिशो न आपो विश्वतः परि पान्तु सर्वस्य शान्तिः सदधारमुत्समक्षीयमाणं विवश्चिदम्पिदरं वक्वानाम् मेळिं मदन्तं पित्रो रुपस्थेदं रोदसी पिप्रदं सत्यवाचम् ऋचो अक्षरे परमे व्यो मन्यस्मिन् देवा अधिविश्वे निषेदुः यस्तन्न वेद किमृजा एतद्विदुस्त इमे समासदे ॐ शान्ति शान्ति शान्तिः